भगवद्गीता चाप्टर् फोर् वर्षस् वन् टु टेन् अदक्षतुर्भोऽध्यायः श्रीभगवानुवाच इमम् विभत्त्वम् प्रोक्तवानहमव्ययम् इन् मनवे प्राहमनुरिक्ष्वागवे ब्रवी एवम् विदुः सकालेनेकमखा योगो नष्ट परं तव स एवायं मया चेद्ययोग प्रोक्तपुरातनः भक्रोति मे सखाचेदि भवतो जन्म परञ्जन्म विवस्वतः कथमे तद्विजानीयान् त्वमादौ प्रोक्तवानि श्रीभगवानुवाजा बहूनि मे व्यदीराणि जन्मानि तव चार्जुन तान्यसं वेद सर्वाणि न त्वम् वेद्धरन्त अजोगिः सन्नव्यायात्मा भूतानामीश्वरोऽपि सन् प्रसृतिम् स्वामधिष्ठाय सम्भवाम्यात्ममायया यथा यदा जि धर्मस्य द्लानिर्भवति भारत अभ्युदानमधर्मस्य तदात्मानम् परित्राणाय साधूनाम् विनाशाय च धर्मसंस्थापनार्थाय सम्भवामि युगे युगे जन्म दिव्यमे वन्यो वेत्ति तत्त्वदः त्यक्त्वा देहम् पुनर्जन्मन्न मा मेदितोऽर्जुना वीररागभयक्रोध मन्मया मामुपाश्रिताः भगवो ज्ञानतपसा पू मद्भावमागताः भगवद्गीता चाप्टर् 4 वर्सस् 11-20 ये यथा मां प्रपद्यन्ते तांस्तदैव भजाम्यहं मम वर्त्मानुवर्तन्ते मनुष्या पार्थसर्वशथा काङ्क्षन्धकर्मणां सिद्धिं न्ययन्तयिक देवताः क्षिप्रं हिमानुषे लोगे सिद्धिर्भवति कर्मजा चादुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः तस्य कर्तारमपि मां विद्यकर्तारमव्ययम् न मां कर्मा निलिम्बन्दि न मे कर्मबले इति मान्यो विजानादिकर्मभिर्न स बध्यते एवञ्ज्ञात्वा कृतं कर्म पूर्वैरभिमुक्षुभिः कुदु कर्मैव पूर्वै पूर्वतरं कृतम् किं कर्म किमकर्मेदिकवयोऽप्यत्र मोहिताः तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्ष्यसे शुगात् कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः अकर्मणश्च बोद्धव्यं गखनाकर्मणो गतिः कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः स बुद्धिमान्मनुष्येषु सयुक्तकृत्नकर्म यस्य सर्वे समारम्भकामसङ्कल्पवर्जिताः ज्ञानाग्निदर्दकर्मानन्दमाहुः पण्डितम्बुधाः त्यक्त्वा कर्मबला सङ्गन्नित्यतृप्तो निराश्रयः कर्मण्यभिप्रवृतो विन्नैव किञ्चित् करोति सः भगवद्गीता चाप्टर् फोर् वर्षस् ट्वेण्टि वन् टु तर्टि निराशीर्यदचित्तात्मात्यत्र सर्वपरिग्रहः शारीरं यदृच्छालाभसन्तुष्टो द्वन्द्वादीदो विमत्सरः समसिद्धावसिद्धौ च कृत्वा विन निबध्यते गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेदशः यज्ञायाचरदकर्म समग्रं प्रविलीयते ब्रह्मार्पणं ब्रह्म कविर्ब्रह्मग्नौ ब्रह्मणाहुदम् ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्मसमाधिना दैवमेवापरे यज्ञं योगिनः पर्युपासदे ब्रह्माज्ञावपरे यज्ञं यज्ञेनैवोपजुह्वति श्रोत्रादीनेन्द्रियाण्यन्ये संयमाग्निषु जुह्वति शब्दादिन्विषयानन्य इन्द्रियाग्निषु जुह्वी सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीभिदे द्रव्ययज्ञास्तपो यज्ञयोगयज्ञास्तभापरे स्वाध्यायज्ञानयज्ञाश्च यदयस् ितव्रताः अपाने जुह्वति प्राणं प्राणे पानन्तथापरे प्राणापानगदीरुद्ध्वा प्राणायामपरायणाः अपरे नियताहारा प्राणान्प्राणेषु जुह्वति सर्वेऽप्येदे यज्ञविदो यज्ञक्षभिदकल्मषाः भगवद्गीता चाप्टर् फोर् वर्षस् तर्टि वन् टु फोर्टि टु यज्ञशिष्टामृतभुजो यान्दिब्रह्मसनातनं नायं लोगोऽस्त्यस्य कुतोऽन्य कुरु सत्तमा एवं बहुविधा यज्ञा विदधा मुखे कर्मजान् विद्धिदान् सर्वानेव ज्ञात्वा विमोक्ष्यसे श्रेयान् द्रव्यमयाद्यज्ञाज्ञानयज्ञपरं दव सर्वं कर्माखिलम्पार्थज्ञाने परिसमाप्यते तद्विद्धिप्रणिपादेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः यत् ज्ञात्वा न येन भूतन्यशेषेण द्रक्ष्यस्यात्मन्यदोमयी अपि सर्वज्ञानप्लवेनैव व्रजनं संतरिष्यसि यदैदांसि समिद्धोऽग्निर्भस्म सत्कुरुदे अर्जुन ज्ञानाग्निर्सर्वकर्माणि भस्म सत्कुरुदे तदा न हि ज्ञानेन ना सदृशं पवित्रमिह विद्यते तत्स्वयं योगसंसिद्धकालेनात्मनि विन्दति श्रद्धावान् लभते ज्ञानं तत्परः संयदेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति अज्ञश्चाश्रद्धधानश्च संशयात्मा नायं लोगोऽस्ति न परो न सुखं संशयात्मनः योगसंन्यस्तकर्माणं ज्ञानसंचिन्नसंशयम् आत्मवन्दन्नकर्माणि निबध्नन्दिधनञ्जय तस्मादज्ञानसम्भूतं हृत्तं ज्ञानासिनात्मनः त्वैनं संशयं योगमादिष्टोत्तिष्ठभारद ॐ तत्सत् इति श्रीमद्भगवद्गीतासूपनिषत्सु चतुर्दोऽध्यायः